ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं नयन् अमृतमन्थनम् इन्द्र उवाच भगवन् सर्वधर्मज्ञत्रिकालज्ञानवित्तम दुष्कृदन्तप्रतीकारो भवदा सम्यगीरितः केन कर्मविपाकेन ममापदियमागता प्रायश्चित्तं च किं तस्य गतस्व वदतां वर बृहस्पतिरुवाच काश्यपश्य तदो जज्ञे दिव्यां धनुरिधि स्मृतः कन्यारूपवती नाम धात्रेतां प्रददौ पिता तस्याः पुत्रस्तदो जादो विश्वरूपो महाद्वितिः नारायणपरो नित्यं वेदवेदाङ्गपारगः तदो दैत्येश्वरो वव्रे भृगुपुत्रं पुरोहितं भवान्नधिकृतो राज्ये देवानामिव वासवः ततः पूर्वे च सुधर्मायां त्वयि स्थिते स्वया कश्चित् कृतप्रश्नऋषीणां सन्निधौ तदा संसारस्तीर्थयात्रा वा वदन्दु वदन्तु तद्विनिश्चित्य भवन्तो मदनुग्रहात् तत्प्रश्नस्योत्तरं वक्तुं ते सर्व उपचक्रिरे तत्पूर्वमेव कथितं मया विधिबलेन वै तीर्थयात्रा समधिका संसारादिति च द्रुतं तच्छ्रुत्वा ते प्रकुपिताश्ये पुर्मा कर्मभूमिं व्रजे दारिद्र्येण मितैः सुतैः एवं प्रगुपितैः शब्दखिन्न काञ्चीं समाविशम् पुरीं पुरोधसाहीनां वीक्ष्य चिन्ताकुलात्मना भवदा सह देवैस्तु पौरोहित्यार्थमादराद् प्रार्थितो विश्वरूपस्तु बभूव तपतां तपताम्बरः स्वश्रीयो दानवानां तु देवानाञ्च पुरोहितः नात्यर्थमकरोद्वैरं दैत्येश्वपि महातपाः बभूवतुस्तुल्यबलौ तदा दैत्येन्द्रवासवौ ततस्त्वं कुपितो राजन् स्वक्लीयं दानवेशितुः हन्तुमिच्छन्नगाश्चाशु तपःसः साधनं वनं तमासनस्थं मुनिभिस्त्रिशृङ्गमिव पर्वतं त्रयीमुखरदिग्भागं ब्रह्मानदैगनिष्ठितं सर्वभूतहितं तं तु मत्वा चेशानुकूलितः शिरांसि यौगपद्येन छिन्नात्या संस्त्वयैवतु तेन पापेन संयुक्तः पीडितश्च मुहुर्मुहुः ततो मेरुगुहां नीत्वा बहूनब्धान् हि पुत्रशोकेन संतप्तस्त्वाम् शशाप ऋषान्वितः निःश्रीको भवदुःक्षिप्रं मम शापेन वासवः अनाथकास्तदो देवा विषण्णा दैत्यपीडिताः त्वया मया च रहिताः सर्वे देवाः पलायिताः गत्वा दुब्रह्मसदनं नत्वा तत् वृत्तमूचि ततस्तु चिंतयास तद प्रतिक्रिया प्रतिक्रियामूस्त तदो पीवृत नारायण मुगमद नत्वा स्तुत्वा चतुर्वक्रस्तद्वृत्तान्तं व्यजिज्ञपद विचिन्त्यसोऽपि बहुधा कृपया लोकनायकः तदखं तु त्रिधाभित्वा त्रिषु स्थानेष्वतार्पयत् स्त्रीषु भूम्यां च वृक्षेषु तेषामपि वरं ददौ तदा भर्तृसमयोगं पुत्रावाप्ति मृदुष्वपि चेदे पुनर्भव त्वं तु सर्वेषामपि शाखिनाम् खादपूर्तिं धरण्यश्च प्रददौ मधुसूदनः तेष्वखं प्रबभूवाशु रजो निर्यासमूषरं निर्गदो गह्वरास्मात्त्वमिन्द्रो देवनायकः राज्यश्रियं च सम्प्राप्तः प्रसादात् परमेष्ठिनः तेनैव सां त्विदोधादा जगाद च जनार्दनं मम शापो वृधान स्यादस्तु कालान्तरे मुने भगवांस्तद्वच श्रुत्वा मुनेरमिद तेजसः प्रहृष्टो भावि कार्यज्ञस्तूष्णीमेव तदा ययौ एतावन्दमिमं कालं त्रिलोकीं पालयन् भवान् ऐश्वर्यमदमत्तत्त्वात्कैलासाद्रिमपीडयत सर्वज्ञेन शिवेनाधप्रेषितो भगवान्मुनिः दुर्वासास्त्वन्मदभ्रंशं कर्तुकामः शशापः एकमेव फलं जातमुभयोः शापयोरपि अधुना पश्य निः श्रीकन्त्रैलोक्यं समजायत न यज्ञाः नदा ना नानिच च वासव न नतपासिच कुत्रचित न तपासि च कुत्रचित् विप्राः सर्वेपि निःश्रीका लोभोपहतचेतसः निःसत्त्वा धैर्यहीनाश्च नास्तिकाः प्रायशो भवन् निरौषधिरसभूमिर् निवी जायतेतरा भास्कर धुस्सराकारश्चंद्रमा काजिस्तेजस्को विभोक्ता मनुली न प्रसन्ना दिशा भागा नो नमल दुर्बला देवता सर्वा विभान्त्यन्यादृशा इव विनष्टप्रयमेवास्तित्रैलोक्यं सचराचरं हयग्रीव उवाच युद्धं कथयतोरेव बृहस्पतिपहेन्द्रयोः मलकाद्यामहादैत्या स्वर्गलोकम् बबाधिरे नन्दनोद्यानमखिलं चिच्चिद्दुर्बलगर्विताः उद्यानपालकान् सर्वाना युधैः समताडयन् प्राकारमवभिद्यैव प्रविश्य नगरान्तरं मन्दिरस्थान्सुरान् सर्वानत्यन्तं पर्यपीडयन् आ जहुरप्सरो रत्नान्यशेषाणि विशेषतः ततो देवाः समस्ताश्च चक्रुर्भृशमबाधिताः तादृशं कोषमाकर्म्य वासवप्रोचितासनः सर्वैरनुगतो देवैः पलायनपरो भवत् ब्राह्मं धाम समभ्येत्य विषण्णवदनो वृषा यथावत् कथयामास निखिलं दैत्यचेष्टितं विधातापि तदाकर्ण्य सर्वदेव समन्वितं हतश्रीकं हरिहयमालोक्येदमुवाचः इन्द्रत्वमखिलैर्देवैर्मुकुन्दं शरणं व्रज दैत्यादिर्जगत्कर्ता सदेश्रेयो विधास्यदि इत्युक्त्वा तेन सहितस्वयं ब्रह्मा पितामहः समस्तदेव सहितः क्षीरोदधिमुपाययौ अध देवा भगवन्तं जनार्दनं तुष्टुवुर्वाग्वरिष्ठाभिस्सर्वलोकमहेश्वरम् अध प्रसन्नो भगवान्वासुदेवः सनातनः जगादस कलान्देवाञ्जगद्रक्षणलम्पडः श्रीभगवानुवाज भवताम् सुविधास्यामि त्यजसैवोपबृंहमं यदुच्यदेमयेदानीं युष्माभिस्तद्विधीयताम् ओषधिप्रवराः सर्वाः क्षिपदक्षीरसागरे असुरैरभिसंधाय सममे वचतैरिह मन्थारं मन्थरं कृत्वा कृत्वा योक्त्रं च वासु किं मयि स्थिते सहायेतु मध्यदा मम मम मम मम मम मम सुराः मध्यमानेतु तु दुग्धाब्धौ या समुत्पद्यते सुधा तत्पानाद्बलिनो यूयममर्त्याश्च भविष्यथ यथा दैत्याश्च पीयूर्षं नैतत्प्राप्स्यन्ति किञ्चन केवलङ्क्लेश्यवन्तश्च करिष्यामि तथा स्यहम् इति श्रीवासुदेवेन कथिता निखिला सुराः सन्धानं त्वदुलैर्दैत्यैः कृतवन्तस्तदा सुराः नानाविधौषधिगणं समानीय सुरासुराः श्रीराब्धिपयसि क्षिप्त्वा निर्मलं मन्दानं मन्दरं कृत्वा कृत्वा योक्त्रं तु वा सुं प्रयत्नेन भी प्रयत्न वासुके यादस वासुक पुच्छे दुसितादेवता शिरो भागे दु दैत्येयुक्ता शौरण बलवंदो पिते ते दैत्याखो निर्दग्धवपुष सर्वे निस्तेजस्कास्तदा भवन् पुच्छदेशे दुकर्षन्तो मुहुराप्यायिता सुराः अनुकूलेन वादेन विष्णुना प्रेरितेन तु आदिकूर्मा कृधि श्रीमान्मध्ये क्षीरपयोनिधेः भ्रमतो मन्दराद्रेस्तु तस्याद्धिष्ठानतामगात् मध्ये च सर्वदेवानां रूपेणान्येन माधवः चकर्षवासु किं वेगादैत्यमध्ये परेण च ब्रह्मरूपेण तं शैलं विधार्याक्रान्तवारिधिम् अपरेण च देवर्षिर्महता तेजसा मुहुः उपबृंहितवान् देवान्येन ते बलशालिनः तेजसा पुनरन्येन बलात्कार सहेन सह उपबृंहितवान्नागं सर्वशक्तिजनार्दनः मध्यमाने ततस्तस्मिन् क्षीरब्धौ देवदानवैः आविर्बभूवपुरदसुरभिः सुरपूजिता मुदं जग्मुस्तदा देवा दयितेयाश्च तपोधना मध्यमाने पुनस्तस्मिन् क्षीराब्धौ देवदानवैः किमेतदिति सिद्धानां दिवि तदा उद्धिता वारुणीदेवी मदाल्लोलविलोचना असुराणां पुरस्तात् सा स्मयमाना व्यतिष्ठत जगृहोर्नैव तां दैत्या असुराश्चाभवंस्ततः सुरा न विद्यते येषां तेनैवा सुरशब्दिताः अध सा सर्वदेवानामग्रदसमतिष्ठद जगृहुस्तां मुदा सुराग ग्रहन मध्यमाने तदो सुराग्रहणद्युशब परिदो मध्यमने जगद। पारिजाद महाद्रुम आविरासिशंगा धीरासरसांगण आविर्भूताश्च देवर्षे सर्वलोकमनोहराः तदशीदां श्रहृदभूतं जग्राह महेश्वरः विषजातं तदुत्पन्नं जगृहुर्नागजादयः कौस्तुभाख्यं तदोरत्नमाददे तज्जनार्दनः तदस्वपत्रगन्धेन मदयन्ती महौषधीः विजयानां संजज्ञे भैरवस्तामुपाददे तदो दिव्याम्बरधरो देवो धन्वन्तरि स्वयम् उपस्थितः करे बिभ्रदमृदाढ्यं कमण्डलुम् तदः प्रहृष्टमनसो देवादैत्याश्च सर्वतः मुनयश्च भवं स्तुष्टास्तदानीं तपसां निधे ततो विकसिताम्भोजवासिनी वरदायिनी उद्धिता पद्महस्ता श्रीस्तस्मात् क्षीरमाहावाद अधदां मुनयः सर्वे श्रीसूक्रेण श्रियं परां तुष्टहृदया गन्धर्वाश्च जगुः परं विश्वाजीप्रमुखाः सर्वे ननृतुश्चाप्सरोगणाः गङ्गाद्या पुण्यनद्यश्च स्नानार्थमुपतस्थिरे अष्टौ दिग्दन्धिनश्चैव मेध्यपात्रस्थितं जलम् आदाय स्नापयञ्चक्रुस् तां श्रियं पद्मवासिनीं तुलसीं च समुत्पन्नां परार्थां मैक्यजांहरेः पद्ममालां ददौ तस्यै मूर्तिमान् क्षीरसागरः भूषणानि च दिव्यानि विश्वकर्मा समर्पयद दिव्यमाल्यां भरधरा दिव्यभूषणभूषिता ययव वक्षस्थलं विष्णोः सर्वेषां पश्यतां रमा तुलसीदु धृता तेन विष्णुना प्रभविष्णुना पश्यति स्म च सा देवी विष्णुवक्षधलालया देवान्तयार्द्रया दृष्ट्या सर्वलोकमहेश्वरी इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने अमृतमन्दनं नाम नवमोऽध्यायः ओ